मम सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतं गतवर्गे अस्माभिः दृष्टं परमात्मा परमपुरुषः समदर्शी अस्ति इति अत्र अस्मिन् वर्गे अत्र एकः नूतनः विचारः अस्ति यस्य विषये अस्माभिः चर्चा कृता एतावता बहु रुचिकरं रुचिकरः विषयः अस्ति अपि च योगनिष्ठजीवने मुख्यः अंशः अपि अस्ति तस्य तर्हि वयं जानीमः मानवजीवने मानवजीवनं त्रिस्तरीयं वर्तते तत्र त्रयः स्तराः वर्तन्ते योगनिष्ठजीवनं अत्र सर्वेषां सर्वेषां विषये योगनिष्ठजीवनं योगनिष्यजीवनस्य विनियोगः अस्ति योगनष्यजीवनं त्रिषु अपि स्तरेषु तत्र शारीरिकस्तरे शारीरिकस्तरे मानसिकस्तरे आध्यात्मिकस्तरे त्रिषु अपि त्रिषु क्षेत्रेषु अपि विकासं विस्तारं च जनयति योगनिष्यजीवनं तर्हि योगनिष्ठजीवनं शारीरिकदृष्ट्या लाभदायकम् अस्ति इति अस्माभिः पूर्वं चर्चां कृतवन्तः तत्र सात्विक आहारः योगासनानि व्यायामः निर्जलोपवासः एतेषां सर्वेषां लाभः अस्माकं शरीरे भवति एतेषां पालनेना अस्माकं स्वास्थ्यं स्वास्थ्यं लभ्यते अस्माभिः अनन्तरं दीर्घकालपर्यन्तम् औषधं विना वयं जीवितुं शक्नुमः औषधस्य सेवनं विना जीवितुं शक्नुमः अनन्तरं शरीरे शक्तिः अपि भवति सहनशक्तिः भवति अनन्तरं तत्र अस्माकं पाचनशक्तिः सम्यक् भवति शरीरे शरीरे शरीरं लघु भवति लघुतायाः भावः अपि भवति एवं तत्र शारीरिकस्वास्थ्यम् अनन्तरं मानसिकस्वास्थ्यम् अपि लभ्यते अत्र यद् योगनष्टजीवनमित्यत्र यद्यदस्माभिः चर्चितं ते तस्य सर्वस्य पालनेन तत्र शारीरिकस्वास्थ्यं मानसिकस्वास्थ्यं द्वयमपि लभ्यते एतत् सर्वं तु स्वाभाविकतया लभ्यते योगनष्टजीवनस्य अनुसरणेन बहु स्वा स्वाभाविकमस्ति अतः एव अत्र प्रथमतया योगनस्य जीवनमिति वर्गे अस्य विषये एव चर्चा भवति अत्र आहारः आसनानि इत्येतेषां सर्वेषां विषये चर्चा भवति यतोहि एते एते एतानि सर्वाणि अपि एकः सर्वाणि अपि आधारम् एकम् आधारं दास्यन्ति एतानि सर्वाणि आधारं दास्यन्ति आधारम् अग्रगतिं प्राप्तुम् आधारं दास्यन्ति अत्र तत्र योगनशजीवनम् इति त्रिषु त्रिषु स्तरेषु अपि लाभः अस्ति प्रथमतया मुख्यतया तत्र शारीरिकस्तरे अस्माभिः दृश्यते शारीरिकस्तरे तु वयं अस्य पालनेन तत्र किं भवति इति चेत् वयं बहु किमपि अनुभवामः तत्र शारीरिकस्तरे अस्माकम् अनुभवः भवति यतोहि तत्र वयं किम् अनुभवामः वि फील् ड्रेमेटिक्लि डिफ़्रेण्ट् अस्माकं जगतः विषये दृष्टिः अपि परिवर्तते यदा शारीरिकस्तरे परिवर्तनं कुर्मः चेत् तदानीम् इत्युक्ते सम्यक्तया यता उक्तं तथा तथा परिवर्तनं कुर्मः चेत् तदानीं वयं वेदम् अनुभवामः स्वयम् अनुभवामः अपि च अस्माकं दृष्टिः जगतः विषये अस्माकं दृष्टिः अपि परिवर्तते तर्हि एतावता शारीरिकस्तरे अस्माभिः चर्चितम् शारीरिकस्तरे अस्माकं शरीरस्य आकारः अस्ति आकारः अस्ति आकारः अस्ति इति कृत्वा तत्र तत्र किं लिमिटेशन् अपि वर्तते लिमिटेशन् अत्र शरीरे क्षमतायाः सीमा अपि वर्तते इत्युक्ते विकासः विस्तारः विस्तारस्य स्वाभाविकतया अद्यपि विस्तारः विकासः भवति परन्तु तत्रापि सीमा वर्तते अस्माकं शरीरस्य आकारः अस्ति तर्हि अतः ततः अग्रे शारीरिकस्तरं विहाय अग्रे गच्छामः चेत् तत्र अस्माकम् अनन्तेषणा वर्तते अ, अनन्तस्य प्राप्त्यर्थम् अस्माकं हृदि इच्छा वर्तते एषना वर्तते तर्हि इदानीं शारीरिकं तत्र शरीरं तु आधारः अस्ति शरीरम् आधारं ददाति यतोहि शरीरे एव मनः वर्तते तर्हि केचन जनाः शरीरमेव तेषां जीवनस्य लक्ष्यम् इति चिन्तयन्ति तत्तु सम्यक् नास्ति यथा अत्र हतयोगिनः ये, ये सन्ति ते सर्वदा योगासनानि कुर्वन्ति अथवा अन्ये के अन्ये जनाः सन्ति ये सर्वदा व्यायामस्य विषये चिन्तयन्ति फिट्नेस् इति विषये बहु चिन्तयन्ति इत्युक्ते ते, ते चिन्तयन्ति तदेव लक्ष्यमस्ति जीवनस्य लक्ष्यम् इत्युक्ते व्यायामः आवश्यकः अस्ति जीवनस्य योगनस्य जीवनस्य अंशः अस्ति परन्तु तत्तु लक्ष्यं नास्ति शरीरं सम्यक् अस्ति चेत् सम्यक् आधारः भवति यतोहि शरीरे एव जीवात्मा अपि वर्तते शरीरे एव मनः अपि वर्तते परन्तु शरीरम् अस्माकं लक्ष्यं नास्ति इति अवगन्तव्यं शरीरमस्माकं लक्ष्यं नास्ति तर्हि इदानीं शारीक शारीरिक स्तरं विहाय अग्रे गच्छामः चेत् मानसिकस्तरं वर्तते आध्यात्मिकस्तरः वर्तते मानसिकं मानसिकस्तरः वर्तते आध्यात्मिकस्तरः वर्तते मान तत्र मानसिकस्तरे अस्माकं मनसि पिपासा अस्ति अनन्तस्य पिपासा वर्तते इति कृत्वा वयम् अग्रगति तत्र अग्रे आध्यात्मिकस्तरं प्रति गच्छामः तर्हि अन्ततो गत्वा अस्माकं लक्ष्यं योगः अस्माकं लक्ष्यमस्ति अनन् तत्र परमात्मा तर्हि योगद्वारा परमात्मनः प्राप्तिः तर्हि योगः कः इति अस्माभिः पूर्वमपि चर्चितं तत्र जीवात्मा परमात्मनोः संयोगः योगः इति वदामः जीवात्मा परमात्मानयोः संयोगः योगः तर्हि अत्र तादृशसंयोगः तु जीवात्मस्तरे जीवात्मनः परमात्मना सह संयोगः तर्हि एतादृशसंयोगः योगः तु मानसातीतः विषयः अस्ति यतोहि परमात्मा तु मानसा द्रष्टुम् इत्युक्ते तत्र इन्द्रियेण द्रष्टुं न शक्यते तर्हि तत्तु जीवात्मा परमात्मनयोः संयोगः मानसातीतः अस्ति तत् कथं लभ्यते इति चेत् साधनाद्वारा लभ्यते यदा तत्र मनः एकाग्रचित्तरूपेण परमात्मनः विषये चिन्तयति तत्र तैलधारावत् चिन्तनं तैलधारावत् चिन्तनं यदा भवति तदानीं किं भवति इति चेत् मनः तत्र मनः यता समुद्रे लवणस्य पाञ्चालिका तत्र एव विलीनं भवति एवं साधनाद्वारा मनः परमात्मनि विलीनं भवति तर्हि इदानीं शारीरिकस्तरे यद् दृष्टमस्ति आहारः इत्यादयः शारीरिकस्तरे शरी आहारः इत्यादयः इत्यादिषु विषयेषु अस्माभि अस्माकं चर्चा जाता तस्मिन् विषये अस्माकं अनुभवः अपि अस्ति एतावता ये, ये ये यैः अस्य पालनं कृतं तेषां सर्वेषाम् अनुभवः अपि अवश्यं भवति तर्हि इदानीं ततः अग्रे आध्यात्मिकस्तरे तु साधनाद्वारा यदा मनः मनसः आकारः नास्ति यदा मनः परमात्मन परमात्मन परमात्मनः विषये चिन्तनं करोति तदानीं तत्र अग्रगतिः भवति जीवात्मनः परमात्मनोः ऐक्यमपि भवति तत्तु आध्यात्मिकस्तरे तर्हि अत्र साधना कथं क्रियते इति चेत् मनसा मनसा एव क्रियते खलु मनसा एव क्रियते मनसा साधनं कृत्वा तत्र अन्ततो गत्वा मनसा मन मनं मनः अतीत्य तत्र जीवात्मा परमात्मनोः ऐक्यं भवति तर्हि अत्र शारीरिकस्तरः कथं भवति आध्यात्मिकस्तरः कथं भवति इति चर्चा कृता तत्र शरीरम् एकं सम्यक् आधारं ददाति यस्मिन् तत्र मनः साधनां कृत्वा अग्रगतिं प्राप्तुं शक्नोति यदि तत्र शरीरं सम्यक् नास्ति तर्हि शरीरे रोगाः सन्ति चेत् यदा हस्तः पादः एतत् सर्वं सम्यक्तया कार्यं हस्तपादादयः सम्यक्तया कार्यं न कुर्वन्ति तदानीं शरीरं सम्यक् आधारं न ददाति मनसः कृते साधनां कर्तुं तर्हि शरीरस्य स्वास्थ्यं बहु मुख्यं वर्तते यतोहि शरीरं सम्यक् अस्ति चेदेव मनसः आधारः भवति तदानीमेव साधनां कर्तुं शक्नुमः तदानीं मन uh, मनः अतीत्य uh, शुद्धपुरुषे ऐक्यं uh, प्राप्तुं शक्नुमः तत्र uh, मानवस्य अस्तित्वं त्रिस्तरीयम् इति वर्तते शारीरिकस्तरे आध्यात्मिकस्तरे चर्चा कृता इदानीम् अत्र मध्यस्तरः यः वर्तते मध्यस्तरः मध्यस्तरः अस्ति अत्र मानसिकस्तरः मानसिकस्तरः योगः इत्युक्ते तत्र परिमितसीमातः यद् यस्य अन्तः वर्तते तस्मात् अनन्तं प्रति अथवा अपूर्णता अपूर्णतातः पूर्णतापर्यन्तं गमनम् एव योगः सो इदानीं तर्हि इदानीं तत्र मध्यस्तरः यः वर्तते मानसिकस्तरः तत्र मानसिकस्तरः इत्युक्ते मनः योगनिष्ठजीवने मनः मनः इत्यस्य किं कार्यमस्ति इत्युक्ते मनः अस्ति शरीरमस्ति आत्मा अस्ति तर्हि इदानीं मध्ये यः स्तरः अस्ति मानसिकस्तरः मानसिकस्तरः योगनिष्ठजीवने तत्र किं कार्यं करोति तर्हि मानसिकविस्तारः इति यदा वयं वदामः तस्य मानसिकविस्तारः इत्यनेन क को अभिप्रायः कोऽभिप्रायः तर्हि अत्र योगः इत्युक्ते कः अपूर्णतातः पूर्णतापर्यन्तं गमनम् इति उक्तं तर्हि इदानीं मनसः विस्तारः यदा भवति एव तदानीमेव अपूर्णतातः पूर्णतापर्यन्तं गमनं शक्यते तर्हि इदानीं मनः किं करोति मनसः किं कार्यम् अस्ति इति अस्माभिः अवगन्तव्यं मनः तु योगनिष्ठजीवने बहु मनसः बहु मुख्यकार्यं वर्तते अस्माकं सर्वेषामपि दैनन्दिनिकजीवने मनसः तु कार्यं वर्तते एव यदा किमपि वयं पश्यामः तदानीमपि मनः मनः कार्यं करोति एव तर्हि इदानीम् अस्माकम् अन्तिम अन्तिमलक्ष्यमस्ति जीवात्मा परमात्मनोः ऐक्यं तर्हि मनः किं करोति इति मनः मनः एव माध्यम् अस्ति यस्य द्वारा वयं साधनां कर्तुं शक्नुमः मनः अस्माकं सहायं करोति साधनां कर्तुं मनः एव तादृश यदा मनः सम्यक् नास्ति तदानीं साधनायाम् अस्माकम् इच्छा न भवति तर्हि शरीरं सम्यक् अस्ति चेत् यदा सात्विक आहारः स्वीक्रियते चेत् तदानीं मनः अपि मनः अपि सात्विकं भवति यदा सात्विकं भवति चेत् तदानीं सम्यक् आधारः भवति साधनां कर्तुं इदानीं मनः सम्यक् नास्ति इति यदा वयं वदामः मनः सम्यक् नास्ति इत्यस्य कः अर्थः मनः सम्यक् नास्ति इत्युक्ते यदा मनसि बन्धनानि सन्ति बन्धनानि सन्ति अत्र इत्युक्ते मनसि मनसि बन्धनानि कथं भवन्ति यदा मनसि बन्धनानि भवन्ति तदानीं कश्चित् साधनां कर्तुं न शक्नोति तत्र तस्य मनः न त न तत्र न भवति तदानीं सम्यक् वातावरणं न भवति साधनां कर्तुं तर्हि मनसि सम्यक् कदा भवति यदा अस्माकं बुद्धेः मुक्तिः भवति बुद्धेः मुक्तिः भवति बुद्धेः बुद्धेः मुक्तिः कदा भवति यदा बुद्धौ भावजडता भवति भावजडता भवति तदानीं किं भवति इति चेत् तदानीं बुद्धेः मुक्तिः न भवति बुद्धेः मुक्तिः नास्ति चेत् तदानीं मनः मनसि तत्र बन्धनानि भवन्ति यदा मनसि बन्धनानि भवन्ति तदानीं मनः बद्धं भवति यदा मनः बद्धं भवति तदानीम् अग्रगतिः न शक्यते तर्हि इदानीं मनसि बन्धनानि कानि इति चेत् तत्र एकमस्ति अत्र किमस्ति इति चेत् तत्र आ, इत्युक्ते जियो सेण्टिमेण्ट् इति वयं वदामः जियो सेण्टिमेण्ट् इत्युक्ते तत्र भूमेः विषये इत्युक्ते यत्र वयं वसामः तस्य विषये अस्माकं भावना भवति इत्युक्ते यदा इदा इदानीम् अहं वसामि इति चेत् मम मनसि किं भवति इति चेत् भारते वसामि अत्र जनाः सन्ति ते एव मम जनाः इत्युक्ते नेशनलिज़म् इति यद्वद् वदामः अत्र जनाः सन्ति अत्र ये जनाः सन्ति ते एव मम जनाः अत्र भारतदेशात् बहिः ये जनाः सन्ति तेषां विषये मम चिन्ता नास्ति अहं तस्य तेषां विषये किमर्थम् अहं चिन्तयामि मम मम देशे ये जनाः सन्ति तस्य विषये मम चिन्ता अस्ति मम इच्छा अस्ति इति एतादृशचिन्तनं यदा भवति तदानीं समदर्शित्वं कथं लभ्यते परमात्मा समदर्शी तस्य कृते मशकः अपि समानः अथवा शुनकः अपि समानः यः कोऽपि भवतु तस्य सर्वेषां विषये समानता वर्तते यदि अस्माकं मनसि एतादृशभावना भवति यद् अस्मिन् अमेरिका देशे जनाः सन्ति ते जनाः एव मम जनाः अन्ये जनाः मम जनाः न सन्ति इति एतादृशभावना यदा भवति तादृशभावना मनसि बन्धनानि स्थापयन्ति तादृशभावना मनसि बन्धनानि मनसि बन्धनानि भवन्ति इति अत्र प्रथमविषयः अस्ति जियो सेण्टिमेण्ट् अनन्तरम् अत्र द्वितीयः अस्ति सोशियो सेण्टिमेण्ट् सोशिय सेण्टिमेण्ट् इत्युक्ते अत्र सामाजिकरीत्या भावना प्रथमं तु देशरीत्या भावना अथवा अत्र किं भूमेः विषये भावना द्वितीयमस्ति सामाजिकस्तरे सामाजिकस्तरे अस्माकं भावना सामाजिकस्तरे तत्र कतम भावना सोशियल् सेण्टिमेण्ट् इति भावना इति चेत् अत्र ये जनाः अस्मिन् रिलिजन् मध्ये सन्ति ते जनाः एव मम जनाः अथवा कश्चन कोष्ठः अस्ति अथवा कश्चन ग्रूप् अस्ति तत्र ये जनाः सन्ति ते जनाः जनाः एव मम जनाः इति यदा अस्माकं बुद्धौ भावना भवति तादृशभावना अपि मनसि तादृशभावना अपि बन्धन बन्धनदायकमस्ति तादृशभावना अपि बन्धनमेव स्थापयति मनसि तर्हि तदानीमपि मनः बद्धं भवति तदेव तत्र सोशियल् सेण्टिमेण्ट् इति वदामः तर्हि इदानीं ततः अग्रे अत्र आ, ह्यूमेन् सेण्टिमेण्ट् ह्यूमेन् सेण्टिमेण्ट् इति इत्युक्ते मनुष्याणां विषये एव मम प्रीतिः वर्तते इत्युक्ते तत्र भूतानि यानि सन्ति सर्वेषां भूतानां प्रति अस्माकं प्रीतिः भवेत् परन्तु यदा अस्माकं मनसि भावना भवति ओ मनुष्याणां विषये मम प्रीतिः अस्ति परन्तु पशूनां विषये मम प्रीतिः नास्ति पशूनां सस्यानां विषये मम प्रीतिः नास्ति तदानीमपि मनसि बन्धनमेव भवति किम इत्युक्ते केचन जनाः किं कुर्वन्ति इति चेत् ये शाकाहारिणः न सन्ति ये मांसादिकं खादन्ति ते किं वदन्ति इति चेत् मम प्रीतिः केवलं मनुष्याणां विषये एव अस्ति मम प्रीतिः तु पशूनां विषये मम प्रीतिः नास्ति इति ते वदन्ति तदपि एकं अस्ति तर्हि अस्माभिः तु लोके इत्युक्ते लोके वयं वसामः एव लोके वसामः वयं हिमालयं प्रति न गच्छामः लोके वसामः परन्तु लोके यदा वयं वसामः तदानीं मनसि एतानि सर्वाणि बन्धनानि सन्ति चेत् तदानीं साधनां कर्तुम् अग्रगतिः न भवति तदानीं साधनां कर्तुं सम्यक् वातावरणं न भवति इत्युक्ते मनसि समदर्शदर्शित्वं नास्ति तदानीम् अग्रगतिः न भवति एतानि यत्र जियो सेण्टिमेण्ट् सोशियल् सेण्टिमेण्ट् ह्यूमेन् सेण्टिमेण्ट् इति यद् तेन अस्माकं सर्वेषां कृते भ्रातृत्वं न भवति भ्रातृत्वं न भवति योगः इत्युक्ते किम् अत्र योगः इत्युक्ते अस्माकं बुद्धेः मुक्तिः भवेत् बुद्धौ भावजडता दाग्मा न भवेत् बुद्धौ भावजडता न भवेत् बुद्धौ भावजडता अस्ति चेत् अग्रगतिः न भवति योगः इत्युक्ते अस्माकं मनसः विकासः विस्तारः तदर्थं तत्र बुद्धेः मुक्तिः अपेक्षिता तर्हि बुद्धेः मुक्तिः न भवति यदा भावजटका भवति यदा अस्माकं प्रीतिः अस्माकं प्रीतिः तत्र देशस्य विषये वा भवतु भूमेः विषये वा भवतु अत्र अस्मिन् अस्यां भूमौ ये जनाः सन्ति तेषां विषये एव मम मम किं प्रीतिः अस्ति अन्येषां विषये मम द्वेषः अस्ति इति भावना भवतु एतादृशभावना तु बहु सर्वत्र दृश्यते खलु एतादृश एतादृशभावना तु सर्वत्र दृश्यते ज इत्युक्ते यत्र वयं वसामः तत्र ये जनाः सन्ति तेषां प्रति प्रीतिः तु स्वाभाविक स्वाभाविकरीत्या भवति खलु नेशनलिसम् इत्युक्ते स्वाभाविकरीत्या भवति तर्हि ते किं कुर्वन्ति इति चेत् ये जनाः अस्मिन् देशे वसन्ति तेषां विषये एव मम भा वर्तते अन्ये आफ्रिकादेशे ये जनाः सन्ति तेषां विषये मम भ्रातृत्वं नास्ति इति यः विचारः अस्ति सः तत्र मनसि भावजडतां बन्धनं स्थापयति के इत्युक्ते तत्र तत्र देशाधारेण भावना तदेव जियो सेण्टिमेण्ट् इति वयं वदामः टेरिटोरियल् बेस्ड् तादृश तादृशभावना यदा अस्माकं मनसि भावजरतां स्थापयति तदानीम् अत्र समदर्शित्वं न भवति समदर्शित्वं न भवति तदानीम् एका सीमा भवति एका सीमा भवति अत्र ये सन्ति ते एव मम मम मम कारः तु तेषां विषये भवति सीमां स्थापयन्ति तर्हि मनः तादृश तादृश तादृशसीमां लङ्घयितुं न शक्नोति लङ्घयितुं न शक्नोति तर्हि एतादृश एतादृशभावना मनसि अत्र क्लेशं स्थापयति क्लेशं स्थापयति अतः लिमिटेशन् इति वक्तुं शक्नुमः एतादृशभावना तु बहूनां जनानाम् अवश्यम् एव अस्ति अद्यत्वे अद्य अद्य अत्र यादृशस्थितिः अस्ति लोके एतादृशभावना तु बहुत्र अस्माभिः दृश्यते खलु तर्हि अस्माभिः एतत् सर्वं तु बहुवारं दृष्टमस्ति ततः अग्रे तत्र सोशियल् सेण्टिमेण्ट् इत्युक्ते केवलम् अस्मिन् समाजे ये जनाः सन्ति केवलं तेषां विषये एव मम प्रीतिः अस्ति तेषां हिताय एव अहं कार्यं करोमि इति एतादृशभावना एव सोशियल् सेण्टिमेण्ट् अगे पुनः अनेन किं जायते इति चेत् अनेन अपि ममकारत्वं केवलं केष केषाञ्चन जनानां विषये भवति अन्येषां जनानां विषये न भवति इत्युक्ते तत्र आफ्रिकादेशे जनाः सन्ति तत्र तत्र कश्चन सोशियल् ग्रूप् अस्ति इति चिन्तयामः चेत् तत्र कश्चन समाजः अस्ति इति चेत् तत्र ये जनाः सामाजिकसमूहः अस्ति तत्र ये जनाः सन्ति तत्र एव मम प्रीतिः अस्ति तस्मात् बहिः ये जनाः सन्ति तेषां विषये मम प्रीतिः नास्ति इति यदा व्यवहारः भवति तदपि सम्यक् नास्ति तदपि सम्यक् नास्ति तदपि मनसि बन्धनमेव स्थापयति अनन्तरम् अन्तिमम् अस्ति तत्र ह्यूमन् सेण् सेण्टिमेण्ट् इत्युक्ते तत्र मनुष्याणां विषये मम भावना अस्ति मनुष्याणां विषये मम भ्रातृत्वम् अस्ति तेषां तत्र सामीप्यम् अहम् अनुभवामि परन्तु अन्येषां प्राणिनां विषये मम अन्येषां प्राणिनां विषये मम किं मम चिन्ता नास्ति तेषां विषये अन्येषां विषये मम चिन्ता नास्ति इति एतादृशभावना एव तत्र ह्यूमन् सेण्टिमेण्ट् इति वयं वक्तुं शक्नुमः तर्हि यदा अस्माकं बुद्धिः एतेभ्यः बुद्धिः विमुक्ता भवति तदानीमेव अग्रगतिः भवति तदानीं किं भवति इति चेत् सर्वेषां प्रति अस्मिन् जगति ये ये सन्ति तद् यत्किमपि भूतं भवतु सर्वेषां प्रति अस्माकं प्रीतिः भवति एतदेव समदर्शित्वम् एतदेव समदर्शित्वं तर्हि योगस्य अत्रापि योगदानमस्ति अत्रापि योगदानमस्ति बुद्धेः मुक्त्यर्थम् अपि योगस्य योगदानम् अस्ति एतत्तु मध्यस्तरः अस्ति यत्र शारीरिकस्तरे अपि लाभः अस्ति आध्यात्मिकस्तरे अपि लाभः अस्ति मानसिक लाभ अस्त योगद्वारा बुद्धे मुक्ति बुद्धे मुक्ति चेहर त्र किंतीदान बुद्धे मुक्ति बुद्ध भावजता निक्ती चेतजन ने ताग ना बुद्धे भाग ने चे बुद्धि ओपन बवती यदा बुद्धि ओपन बवती तदीम कि मन वर्धते मन वर्धते मनसी भावजडता न भवति मनसि डिविजन्स् न भवति तदानीं किं भवति मनः मनसः विस्तारः भवति मनसः विस्तारः भवति विकासः भवति तदानीमेव साधना सम्यक्तया भवति तर्हि अत्र अद्य अत्र मध्यस्थरस्य विषये अपि अत्र वक्तुम् अत्र परिचयं दातुमिच्छामि अग्रे अस्य विषये बहु चर्चा भवति परन्तु अत्र कश्चन परिचयः भवतु यतोहि शारीरिकस्तरे अस्माभिः दृष्टम् आध्यात्मिकस्तरे अपि अस्माभिः दृष्टम् इदानीं मानसिकस्तरे बुद्धेः मुक्तिः कथं भवति अत्र किं न भवेत् किं किं बन्धनम् अस्ति इति अस्य विषये अद्य उक्तमस्ति अत्र कोऽपि प्रश्नः वा किमपि वक्तुम् इच्छन्ति चेत् वक्तुं शक्नुवन्ति अवगतं वा आं भगिनि okay. समीचीनं तर्हि इदानीम् अद्य ओ नूतनकरपत्रमस्ति एकक्षणम् अहं स्क्रीन् प्रदर्शयामि एकक्षणम् दृश्यते वा मम स्क्रीन् आम् okay. आं भगिनि ओके अस्तु अद्य नूतनविषयः अस्ति परमपुरुषेण सह मम सम्बन्धः कः इति विषयः गत गतवर्गे अहं कहा इति अस्माभिः दृष्टम् इदानीं मम सम्बन्धः कथमस्ति परमपुरुषेण सह मम सम्बन्धः कः सम्बन्धः अस्ति इति इदानीं वयं पश्यामः तर्हि तर्हि किं प्रियभग्नि वाणः परमपदम् निर्गुणब्रह्म अस्ति यदा चैतन्यम् प्रकृत्या गुणान्वितं नास्ति तदा निर्गुणब्रह्म इति स्थितिः प्राप्यते सगुणब्रह्म परमसत्ता वर्तते सगुणब्रह्म प्रकृत्या गुणान्वितम् अस्ति सगुणब्रह्म भ्रमणः च भगवान् इत्यपि नाम वर्तते चैतन्यम् पुरुषः प्रकृतेः गुणप्रभावस्य बन्धनात् मुक्तिम् प्राप्य परमम् पदम् प्राप्य निर्गुणवस् निर्गुणावस्थाम् निर्गुणचैतन्यस्य स्थितिः प्राप्नोति सगुणब्रह्मणि जीवात्मा अथवा अणुचैतन्यम् चैतन्यस्य बहुगुणम् इति कृत्वा भगवान् इत्यस्यापि तत् अनुचैतन्यं बहुगुणम् अस्ति अतः जीवात्मा अपि भगवान् नास्ति जीवात्मा प्रकृतिबन्धना मुक्तः न अपि भगवान् अस्ति भगवान् अस्ति आमां भगवान भगवान भगव सन्धि सन्धिः अस्ति भगवान् अपि भगवान् अस्ति भगवान् अस्ति जीवात्मा प्रकृतिबन्धनात् मुक्तः सन् परमपदं प्राप्तुं निर्गुणब्रह्मणि विलीयते ब्रह्मणः ब्रह्मणः निर्गुण So, uh, श्रेष्ठः uh, निर्गुणब्रह्म भ्रमणः बहवः भ्रमणः अस्ति सगुणभ्रमः निर्गुणब्रह्म अपि च uh, जीवात्मा तत्रापि uh, ब्रह्म ब्रह्मचैतन्यम् एव सो so, uh, तेषु uh, उत्तमं uh, यः uh, इत्युक्ते परमपदं यः कः इत्युक्ते निर्गुणब्रह्म निर्गुणब्रह्म एव चैतन्यं चैतन्यं प्रकृति प्रकृत्या प्रकृत्या प्रभावितं भवति गुणान्वितं भवति किन्तु निर्गुण ब्रह्मणि तस्य निर्गुण निर्गुणभ्रमणि निर्गुणभ्रमणि तस्य प्रभावं नास्ति निर्गुणभ्रमः गुणान्वितं न भवति अतः तद् एव बहु आ, आ, उत्तमं परमपदम् अस्ति समीचीनम् इत्युक्ते अत्र वदतु वदतु भगिनि न न सम्य सम्यक्तया उक्तवती अत्र एकमेव वक्तुमिच्छामि तत्र बहूनि ब्रह्माणि सन्ति इति न ब्रह्म तु एक एकमेव एक एकमे एकमे ब्रह्म तु एकमेव तस्य एकमे, कार्यात्मकरूपं भिन्नं भिन्नम् अस्ति माता गृहे माता अस्ति गृहे पत्नी अस्ति बहिः तत्र वैद्या अस्ति तत्र एका एव सत्ता तत्र भिन्नभिन्न भिन्नभिन्नकार्याणि एका एव सत्ता यथा करोति तथा ब्रह्म एकमेव परन्तु तस्य कार्यात्मकरूपं भिन्नभिन्नं नामकरणमस्ति अतः बहूनि ब्रह्माणि सन्ति इति न एकमेव ब्रह्म एकमेव ब्रह्म सगुणवस्थायामपि भवति निर्गुणावस्थायामपि भवति तर्हि अत्र तदर्थम् उदाहरणं पूर्वम् एकवारं दृष्टमासीत् यथा समुद्रजलं वर्तते तत्र समुद्रजलं केषुचित् स्थलेषु तत्र तत्र किं परिसरस्य कारणात् तत्र शैत्यखण्डहिमकण्डरूपेण भवति परन्तु अन्यत्र अन्यत्र जलरूपेण भवति यता तथा एक एकमेव ब्रह्मा केषुचित् स्थलेषु निर्गुणावस्थायां भवति केषुचित् स्थलेषु सगुणावस्थायां भवति यत्र सगुणावस्थायां भवति तदानीं सृष्टिः भवति निर्गुणावस्थायां तु सृष्टिः नास्ति प्रकृतिः वर्तते परन्तु प्रकृतेः प्रभावः पुरुषस्य उपरि न भवति तस्यां स्थितौ तर्हि इदानीम् इत्युक्ते अत्र एतावता अस्माभिः किं किं चर्चितम् इति चेत् मानवधर्मः कः इति अस्माभिः चर्चितम् मानवस्य स्वभावः कः तर्हि मानवधर्मः कः इति ज्ञातः चेत् तदानीं मानवधर्व धर्मस्य प्राप्त्यर्थं किं करणीयम् अग्रगतिं इति अपि दृष्टं तदनन्तरं तत्र परमपुरुषः इति एका वर्तते इति दृष्टं तदनन्तरं तादृशसत्तातः सृष्टिचक्रं कथं प्रचलति अस्मिन् जगति इति अपि अस्माभिः दृष्टम् इदं जगत् किम् अस्ति तस्य वास्तविकता किम् अस्ति इत्यपि अस्माभिः दृष्टं तर्हि अस्मिन् जगति अहं कः इत्यपि दृष्टम् इदानीं मम सम्बन्धः अत्र मम सन् कः जगता मम सम्बन्धः कः जगता मम सम्बन्धः कः परमपुरुषेण सह मम सम्बन्धः कः इति इदानीम् अत्र प्रश्नः अस्ति मम सम्बन्धः अहं जगति वसामि मम कश्चन सम्बन्धः अस्ति परमपुरुषेण सह मम सम्बन्धः अस्ति अपि च जगता सह अपि मम सम्बन्धः अस्ति खलु तर्हि तदेव अत्र अस्मिन् करपत्रे तदेव स एव विषयः अस्ति तर्हि मनुष्यस्य स्वभावः तु अन्ततो गत्वा निर्गुणब्रह्मणि ऐक्यम् एव अस्माकं लक्ष्यं तदेव तत्र मोक्षः इति वयं वदामः यदा मनः सगुणब्रह्मणा ऐक्यं प्राप्नोति यदा अस्माकं मनः सगुणब्रह्मणः भूममनसा सह ऐक्यं प्राप्नोति तदानीं मुक्तिः इति वयं वदामः तदानीं मनः अस्माकं मनः वर्तते अस्माकं मनः भूममनसा सह अस्माकं मनसः ऐक्यं भवति तर्हि तदानीमपि पुनर्जन्म न भवति पर परन्तु तदानीं तदानीम् अस्माकं मनसः या सामग्री अस्ति सा सामग्री भूममनसह ऐक्यं प्राप्नोति पुनः तस्मात् नूतनजीवनः नूतनजीवनम् अथवा नूतनजीव जीवः आविर्भवति इति तत्र चक्रम् अस्ति परन्तु यदा अस्माकं यदा जीवात्मनः परमात्मना सह ऐक्यं भवति तदानीं मनः न भवति मनः परमात्मनि विलीनं भवति अतः पुनः मनः वर्तते इति नास्ति मनः विलीनं भवति तदेव अस्माकं लक्ष्यं निर्गुणब्रह्मणि ब्रह्मणा सह ऐक्यम् एव अस्माकं लक्ष्यं तदेव मोक्षः इति वयं वदामः तादृशमोक्षावस्था मानसातीतः अस्ति मानसातीतावस्था अस्ति शुद्धपुरुषे मनः नास्ति शुद्धपुरुषे मनः नास्ति भगवान् इति वयं यदा वदामः भगवान् इत्यत्र केचन गुणाः केचन कल्याणगुणाः सन्ति भगवान् इति यद् वदामः यस्य बगाः सन्ति सः भगवान् इत्युक्ते ऐश्वर्यं वीर्यं यशः स्त्रीहि ज्ञानम् इत्यादयः ये सन्ति तर्हि अत्र षड् षड्गुणाः षड्गुणाः यस्मिन् वर्तते सः भगवान् तर्हि मनुष्ये अपि तादृशगुणाः भवितुमर्हति गुणाः मनुष्ये अपि भवितुम् अर्हन्ति इत्युक्ते यः मनुष्यः साधनां करोति तर्हि ते तस् तस्मिन्नपि एतादृशगुणः आगन्तुं शक्नोति अस्मिन्नेव जन्मनि सः देवस्थानं यदा प्राप्नोति तदानीं सः भगवान् भवितुम् अर्हति परन्तु भगवान् इति स्थानं प्राप् प्राप्तव्यम् इति अस्माकं लक्ष्यं नास्ति अस्माकं मनुष्यस्य लक्ष्यं तद् तद् लक्ष्यं तु निर्गुणब्रह्मणा सह ऐक्यम् एव अस्माकं लक्ष्यं तर्हि अत्र जीवात्मा अपि भगवान् इति वयं वक्तुं शक्नुमः यदा तस्मिन् जीवात्मनि तादृशगुणाः भवन्ति तदानीं भगवान् इति वक्तुं शक्नुमः परन्तु अस्माकं लक्ष्यं तु निर्गुणब्रह्मणा सह ऐक्यं तस्याम् अवस्थायां मनः एव न भवति मनः विलीनं भवति परमात्मनि शुद्धपुरुषे मनः शुद्धपुरुषे मनः विलीनं भवति जीवात्मा परमात्मनोः ऐक्यं भवति तस्याम् अवस्थायां तदेव अस्माकं लक्ष्यम् अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः आं प्रश्नः अस्तु सरिताभगिनी अग्रे पठति वा प्रियभगिनी प्रश्नः आसीत् क्षम्यतामि प्रियभग्नि प्रश्नः आसीत् आं भगिनि तत्र पूर्वस्मिन् वदति चेद् तत्र तत्र सगुणब्रह्मणि जीवात्मा अथवा अनुचैतन्यं चैतन्यस्य बहुगुणम् इति कृत्वा भगवान् इत्यस्यापि तत् अनुचैतन्यं बहुगुणम् अस्ति अन्यनाम भगवान् इति सगुणब्रह्मस्य अन्यनाम भगवान् इति तस्य सगुण सगुणब्रह्मणि बहवः रूपं वयं दृष्टवन्तः वा साक्षात् सगुणब्रह्म ब्रह्मणि बहवः जीवात्मा सगुणभ्रमणः जीवात्मा जीवात्मासगुणभ्रमणः अंशः अस्ति खलु यूनिट् कान्शियस्नेस् इति यदा वयं वदामः यूनिट् कान्शियस्नेस् इस् पार्ट् आफ़् द सगुणभ्रम सर्वेषां सर्वेषां जीवात् सर्वेषां जीवात्मनां समूहः एव सामान्यतया सगुणब्रह्म इति वयं वदामः इत्युक्ते सगुणब्रह्मणाः शक्तिः ततः अपि अग्रे अस्ति ये इत्युक्ते ये जीवात्मनः सुषुप्तवस्थायां सन्ति इति एतावता शरीरं न प्राप्तवन्तः तेषां समूहः अपि सगुणब्रह्मणि एव अस्ति सगुणब्रह्म एव तेषां समूहः तर्हि सगुणब्रह्म इति यदा वदामः तर्हि जीवात्मनां समूहाः जीवात्मनां जीवात्मा जीवात्मनः ये आविर्भूताः अपि च जीवात्मनः ये एतावता नाविर्भूताः शरीररूपेण तेषां सर्वेषां समूहः एव सगुणब्रह्म तर्हि सगुणब्रह्म भगवान् इति वयं वदामः चेत् अनुचैतन्यम् अपि भगवान् एव खलु तर्हि समग्रः समूहः भगवान् चेत् अंशः अपि भगवान् एव आं भगिनि इति बहुगुणमिति बहु रूपमपि वक्तुं शक्नुमः सात् बहुगुणमित्युक्ते मल्टिपल् इति अर्थः बहु रूपं इत्युक्ते मल्टिपल् मल्टिपल् नो चेत् बहवः प्रकृत्यस्य प्रभावः वा इति बहु न बहुगुणमित्युक्ते Saguna Brahma is multiple of all the unit consciousness, He is a collective of ah, all the unit consciousness uh -huh, All the uh -huh. unit consciousnesses which are manifested and also which are not manifested, unmanifested Eta Vata Avirna Avir Bhutaha Right? Eta uh Manaha Apicha Jivatma Asti Samohar Upeana uh Paranthu Dhe Thayohu Eta Vata Shariram Na Labdham एतावता शरीरं न लब्धं तदानीमपि तदपि परमात्मनः अंशः एव खलु तादृशजीवात्मा अपि परमात्मनः अंशः सो देर् फ़ोर् मेनिफेस्टेड् एण्ड् अन्मनिफेस्टेड् जीवात्मा कलेक्षन् आफ़् आल् आफ़् देम् वि केन् से सगुणब्रह्म सो सगुणब्रह्म भगवान् इति वयं वदामः चेत् तर्हि जीवात्मा अपि भगवान् जीवात्मनि अपि तादृशसामर्थ्यम् अर् अस्ति यद्यपि वयं न अवगच्छामः यत् अस्माकं तादृशसामर्थ्यम् अस्ति इति वस्तुतः सामर्थ्यमस्ति परन्तु यः साधनां करोति तदानीं सः भगवान् इति स्थानमपि प्राप्तुं शक्नोति यतोहि तस्मिन्नपि ते गुणाः भगवत् भगवती ये गुणाः सन्ति ते गुणाः जीवात्मने अपि ते गुणाः वर्तन्ते चेत् तर्हि जीवात्मा अपि भगवान् वक्तुं शक्नुमः खलु बुद्धं मनुष्यस्य अहम् इति भावना जीवात्मा अथवा अणुचैतन्यं नास्ति इति पूर्वस्मिन् अध्याये व्या व्याख्यातम् अस्ति अस्तित्वज्ञानम् अथवा अहम् इति भावना जीवात्मनः भिन्ना अस्ति अहम् इति एषा भावना जीवात्मनः रूपान्तरितं प्रक्षेपणमात्रम् इत्यपि पूर्वं व्याख्यातम् अस्मि अतः मनुष्यस्य अहम् इति सत्ता भगवान् नास्ति सा सत्ता भगवतः परिवर्तितं वा कल्पितं वा रूपम् यथा उदाहरणत्वेन यदा, यदा रामनामकः पुरुषः मञ्चे शहाजहानः इती तदा तं-पुरुषं अभिनय कुरनस्त इति शाहजहानदा न तो यदा भूमिकां निर्वहति तदा रामस्य वास्तविक वा व्यक्तित्व नवलम पिवर्ति वल व्यक्तित्व यहा निर्वहति तव शहान्य ना तथा अहमती व्यक्ति तादात्म्यमती व्यक्ति सत्मन अथवा भगवान् भिन्ना व्याख्या अहम की भाव वर्त केवलं यस्यां व्यक्त्याम् अहम् इति भावः वर्तते यस्यां व्यक्त्याम् अहम् इति भावः वर्तते सः व्यक्तिः जीवात्मनः परिवर्तितं वा सा व्यक्तिः इति व्यक्तिः इति सा व्यक्तिः केवलं जीवात्मनः परिवर्तितं वा कल्पितं रूपमेव तिष्ठति मनुष्यस्य अहम् इति भावः एव स्वस्य जीवात्मतः व्यक्तिं दूरीकरोति इति दृश्यते वस्तुतः एषः अहम् इति भावस्य कारणात् एव मनुष्यः भगवान् इत्यस्मात् भिन्न सत्ता भवति यस्मिन् नाटके रामः शहजा इति भूमिकां निर्वहति तस्मिन् नाटके नाटकसमाप्तेनन्तरं रामः पुनः स्वस्य मूल्यव्यक्तित्वं प्रति आगच्छति अपि च पुनः सर्वे तं पुरुषं रामः इति वदन्ति तथैव अस्मात् अहम् इति भावात् मुक्त्यनन्तरं जीवात्मनः परिवर्तितं वा कल्पितं वा रूपं निवर्तते तथा च जीवात्मा निर्गुणः गुणरहितः भवति यतः एतत् कल्पितं रूपं केवलं प्रकृतेः गुणप्रभावेण एव आगच्छति अस्य जीवात्मनः परिवर्तितस्य अथवा कल्पितस्य रूपस्य समाप्ते प्रकृति प्रकृतिबन्धनात् मुक्तिः इत्यर्थः अतः मनुष्येषु अहम् इति भावः एव मनुष्याणाम् अपि च जीवात्मान् जीवात्मनाम् मध्ये भेदम् जनयति वस्तुतः एषः एव अहम् इति भावात् जीवात्मा अथवा अणुचैतन्यं परम्पदं प्राप्तुं न शक्नोति अत्र mm. ब्रह्मणि किमपि अहं भावना नास्ति सा तु जीवात्मा नाम समूह अस्ति किन्तु तस्य कृते निर्गुणावस्था एव वर्तते तस्य कोऽपि अहं भावना नास्ति प्रकृतेः प्रभावात् एव अहं भावना इति जीवात्मा कृते वर्तते तत्र यदा अहं भावना अस्ति तदा जीवात्मनः प्रक् परं पुरुष भिन्नः अस्ति यद् अहं भावना एव अहं मनुष्यः अस्मि मम नाम एतत् अस्ति अहम् अन्येषां अन्येषां कृते भिन्ना अस्मि एतद् भावना यदा अस्ति तदा सगु तदा परं पुरुषात् दूरी अस्ति यदा अहं भावना विलीनम् अस्ति सर्वेषां कृते स्वरूप स्वरूपतः तु जीवात्मना परं पुरुषात् भिन्ना नास्ति किन्तु अहं भावना एव भिन, सक्तां क्रियते तदा एव रूपं प्राप्नोति यथा कोपी नाटके एकः पुरुषः भिन्नभिन्नभूमिकां भिन करोति तदा सा भिन्नभिन्न रूपं प्राप्नोति किन्तु वस्तुतः तु सः एकः एव पुरुषः अस्ति तस्य व्यक्तित्वं भिन्नं नास्ति किन्तु सह भिन्न भिन्न भूमि भूमिका कौती तथा जीवात्मा अभी कार्यूपेण भिन्न भिन्न सत्ता भिन्न भिन्न कार्यम तु सर्वथा कौती कितु स्वूपुरश्रूपेण वर्त है निवर्त तदा मनस यहाँ पर विस्तार बार अहम की भावना नह सर्वे स्वरूपत एक वर्त हैृढ़ तदा परमुष सह एक सत्ता भावना चाह दृढ़ प्रकृत मुक्त परमुण सह विलीन तदा मुक्ति आमां समीचीनं um भगिनि इत्युक्ते प्रत्येकं प्रत्येकस्मिन् मनुष्ये अहम् अहम् अस्मि इति भावः अस्ति स्वस्य अस्तित्वस्य भावः अस्ति यथा तत्र शुनकः भवतु मृगः वा भवतु ते भोजनं कुर्वन्ति यदा ते भोजनं कुर्वन्ति पशवः ये यदा भोजनं कुर्वन्ति तदा ते तदानीं तेषां तु अहम् अस्मि इति भावः न यदा ते भोजनं कुर्वन्ति परन्तु यदा मनुष्यः भोजनार्थम् उपविशति तदानीं तेषु एतादृशभावः अस्ति खलु अहम् इदानीं भोजनं करोमि इति भावः अस्ति तत्र कर्ता इति भावः अस्ति कर्तृत्वस्य भावः अस्ति भोक्तृत्वस्य भावः अस्ति एतत् सर्वं किमर्थम् अस्ति इति चेत् अम अहमस्मि इति भावः मनुष्येषु वर्तते एतादृशभावः कथं भवति किमर्थं भवति इति चेत् यतोहि मनुष्ये मनुष्ये या यद् मन यद् मनः वर्तते तस्मिन् मनसि महत्तत्त्वं महत्तत्त्वम् इति यः अंशः अस्ति सः अंशः वर्धितः वर्तते अणुमनसि महत्तत्त्वं वर्धितं वर्तते अतः अस्माकम् एतादृश अनुभवः अहमस्मि इति भावः अस्ति वयं जानीमः मनसः त्रयः अंशाः सन्ति महत्तत्त्वम् अहं तत्त्वं चित्तं महत्तत्त्वम् अहम् अस्मि इति भावः यदा तत्र भूममनः आविर्भूतं भवति तदानीं प्रकृतेः प्रभावात् क्रमेण महत्तत्त्वम् अहं तत्त्वं चित्तम् आयाति इति वयं जानीमः सत्त्वगुणं सत्त्वगुणं सत्त्वगुणः रजोगुणः तमोगुणः इत्येषां प्रभावेन तर्हि अणुमनः अपि भूममनसः इव अत्रापि त्रयः अंशाः सन्ति समष्टिरूपेण यथा अस्ति तथैव व्यष्टिरूपेण अपि अस्ति मैक्रोकाम् मैक्रोका मैक्रोकाम् इत्यस्मिन् कथमस्ति तथैव मैक्रोकाम् इत्यस्मिन्नपि अस्ति व्यष्टिरूपेण अपि अस्ति तर्हि इदानीम् अणोमनसि अपि अहमस्मि इति भावः अस्ति तत्र अहमस्मि इति भावः अस्ति अहं रामः अहं श्यामः अहं लीला अहं सीता इति तादृशभावः अस्ति अस्माकं यत्किमपि नाम भवतु यदा अस्माकम् अस्माकं जन्म भवति तदानीं यत्किमपि नाम लभ्यते तदाधारेण अस्माकम् एतादृशभावः भवति अहं रामः अस्मि अहं सीता अस्मि इति एतादृशभावः अस्काम् अस्माकं भवति मनुष्येषु अहं महत्तत्त्वं वर्धितं वर्तते अस्माकम् अनुमनसः यः अंशः अस्ति महत्तत्त्वं सः अंशः वर्तते इति कृत्वा मनुष्याः भिन्नाः भवन्ति पशु पशुभ्यः भिन्नाः भवन्ति एतादृशवर्धनं मनसः वर्धनम् अस्ति मनसः वर्धनम् अस्ति इति कृत्वा एव मनुष्येषु अनन्तेषणा वर्तते अग्रगतिं प्राप्तुम् इच्छा अपि वर्तते पशुषु तादृश इच्छा नास्ति परन्तु मनुष्येषु एतादृश इच्छा अस्ति परन्तु इच्छायाः पूर्तिः किमर्थं न भवति मनुष्येषु इति चेत् इच्छायाः पूर्तिः न भवति यतोहि अस्माकम् अहमस्मि इति भावः अस्ति अहं पृथक् अस्मि ब्रह्मणः अहं पृथक् अस्मि इति भावः अस्माकम् अस्ति मम पृथक् अस्तित्वम् इति मम भावः अस्ति इति कृत्वा अहं पृथक् एव तिष्ठामि पृथक् एव तिष्ठामि तर्हि वयं सर्वे अपि ब्रह्म वर्तते केन्द्रे ब्रह्म वर्तते सर्वे अपि भ्रमणं कुर्मः ब्रह्मणः परितः वयं भ्रमणं कुर्मः तर्हि यावत्पर्यन्तम् अस्माकं पृथक् अस्तित्वम् इति भावः अस्ति तावत्पर्यन्तं वयं सर्वदा भ्रमणमेव कुर्मः भ्रमणः भ्रमणः परितः वयं भ्रमणमेव कुर्वन्तः स्मः यावत्पर्यन्तम् अहं पृथक् अस्मि इति भावः अस्ति सर्वदा अस्माकं सर्वेषां गतिः वर्तते अग्रगतिः वर्तते अथवा अधोगतिः वर्तते परमात्मनः समीपं वयं गच्छामः अथवा दूरं गच्छामः तर्हि सर्वदा परितः भ्रमणं कुर्वन्तः स्मः यावत्पर्यन्तं पृथक् अस्तित्वम् अस्ति इति भावः अस्ति यदा पृथक् अस्तित्वम् इति भावः न भवति तदानीम् अस्माकम् ऐक्यं भवति भ्रमणा सह तर्हि इदानीम् अहं वस्तुतः रामः अस्मि परन्तु यदा अहम् अन्यपुरुषशाजहान् इति रूपेण अहं नाटकं करोमि तदानीं तत्र पृथक् इति भावः अस्ति तावत्पर्यन्तं शाहजहान् इत्यनेन इति मनुष्येन यत्किमपि करणीयं तत्सर्वं वयं कुर्मः परन्तु तदानीं किं तत्र शाहजहान् इति रूपेण यदा व्यवहारं कुर्मः तदानीम् अहं अस्मि इति भावः न आयाति यतोहि तस्मिन् तत्र अत्र शाजहान् रूपेण इति इदानीम् अस्माकं व्यवहारः अस्ति अतः एवं यावत्पर्यन्तं वयम् अस्माकं यः लघु अहं भावः अस्ति तेन सह वयं सम्बद्धः भवामः सम्बद्धाः भवामः तावत्पर्यन्तम् अहं रामः अहं श्यामः इति एवं रीत्या अस्माकं सर्वदा भ्रमणः भ्रमण भ्रमणः परितः अस्माकं भ्रमणं भवति तर्हि अत्र त ता तादृशमनुष्याणां कृते लोकः वर्तते लोके ये वर्णाः सन्ति तैः वर्णैः से ते तेषां रागः भवति यदा ते यदा ते अवगच्छन्ति यदहं परमात्मनः पृथक् नास्मि मम अहं भावः नास्ति इति यदा ते अवगच्छन्ति तदानीं किं भवति इति चेत् तेषाम् ऐक्यं भवति परमात्मनः सह तदानीं पृथक् अस्तित्वं न भवति पृथक् भावः अपि न भवति मनः अपि न भवति मनसि अहं पृथक् अस्मि इति भावः अपि न भवति तर्हि यः परमात्मा अस्ति अस्मा अन्तर्यामी यः अस्ति सर्वदा से सः अस्मान् अस्मान् अग्रगतिं प्राप्तुम् अस्मान् प्रेरयति परन्तु यदा वयं पशुजी जीवने तादृशव्यस्ताः भवामः तदानीं तादृशप्रेरणां वयं त्यजामः प्रेरणां त्यक्त्वा अस्माकं यः अहम्भावः अस्ति तत्र एव वयं विलीनः अनेन कारणेन एव वयं पृथक् परमात्मनः पृथक् वयं स्मः यावत्पर्यन्तम् अस्माकं लघु अहम्भावः यः अस्ति तेन सह अस्माकं सम्बन्धः भवति तावत्पर्यन्तम् अस्माकम् ऐक्यं न भवति तर्हि साधना इत्युक्ते किम् अस्ति इति चेत् साधना इत्युक्ते तादृशप्रक्रिया येन अस्माकं यः लघुबाव अहम्भावः अस्ति तादृश लघु अहम्भावस्य परमात्मनः परमात्मनः सह ऐक्यं भवति तर्हि अस्माकं भावद्वयं वर्तते अस्माकं लघु अहं भावः अन परमात्मनः अहं भावः यदा अस्माकं लघु अहं भावः परमात्मनः अहं भावेन सह भूममनसः सह ऐक्यं भवति तदानीं वयं मुक्तिः इति वयं वदामः तत्सर्वमेव अत्र उपमाद्वारा प्रतिपादितमस्ति रामः कश्चन अस्ति अपि च शाहजहान् अन्यः अस्ति तर्हि अत्र उपमारूपेण एतद् प्रदर्शितमस्ति अत्र भेदः कः इति चेत् रामः यदा शाजहान् इति रूपेण नाटकं करोति तदानीं सः अवगच्छति सः रामः इति सः अवगच्छति सः रामः सः इदानीं शाहजहान् रूपेण नाटकं करोति इति सर्वम् अवगच्छति परन्तु अस्माकं कथमस्ति इति चेत् यद्यपि वयं नाटकं कुर्मः अत्र रामः श्यामः इति नाटकं कुर्मः परन्तु वयं न जानीमः वयं चिन्तां चिन्तयामः अहं रामः एव अस्मि इति चिन्तयामः अहं श्यामः एव अस्ति इति चिन्तयामः अत्र वयं सर्वे नाटकं कुर्मः इति वयं न अवगच्छामः परन्तु यदा वयं लोके नाटकं कुर्मः तदानीं वयम् अवगच्छामः अहं रामः अस्ति इदानीम् अहं श्यामरूपेण अथवा शाहजहारूपेण अहं व्यवहारं करोमि इति वयं जानीमः परन्तु यदा अस्माकं जन्म भवति अस्मिन् जगति तदानीं वयं न अवगच्छामः अत्र वयं सर्वे अपि परमपुरुषस्य या लीला अस्ति तस्यां लीलायाम वयं नाटकं कुर्मः इति वयं न अवगच्छामः वयं पृथक् एव स्मः इति वयं चिन्तयामः इति कृत्वा सर्वदा तत्र केन्द्रे यः परमपुरुषः अस्ति तस्य परितः वयं सर्वदा भ्रमणं कुर्मः तर्हि आध्यात्मिकजीवनं नाम अस्माकम् अनुभवः यत् अहं ब्रह्मा इति अनुभवः तादृश अनुभवः केवलं पठनेन न लभ्यते पुस्तकस्य पठनेन न लभ्यते तदर्थम् अस्माभिः साधना करणीया येन अस्माकम् अहम्भावः लघु अहम्भावः परमात्मना सह तस्य ऐक्यं भवति तर्हि योगः एव अस्माकं मार्गदर्शनं करोति तत्र साधना कथं इति सर्वं त्रिस्तरीय अस्तित्वे अस्माकं मार्गदर्शनं करोति अस्तु तर्हि किञ्चित् अग्रे गच्छामः कोपि प्रश्नः अस्ति अत्र आ, किम सरला मनुष्य सर अहम की भाव कव रूप जीवात्मा एव अस्थि एक जीवात्मा अथवा भगवान्स्म भिन्ना अस्त अतः कर्मण अर्थ अथवा तिणाम अर्थ जीवात्मादायी न भविम अर्ति यहाँ भाव न कर्मा क्रीय यहां उदाहेण शाहजहानी परिवर्तित भूमिकायां मंचे राण कृता कर्मण परिणाम राम न बाधते शाहजहान प्रभावित मंत्य सै कृत कर्ता कलपुर न तु रा राम सूल व्यक्ति कल्यामी क्रिय से तर साक्षी तथा अहमती प्रक्षेपित अथवा परिवर्तिप्यम कौती कर्म पिणा अभी अवति जीवात्मा न किमपि करमं कर्म करोति न च किमपि परिणामम् अनुभवति जीवात्मा केवलं कर्मणां तत्फलानां च साक्षी भवति mm. इदानीं ती दत्तमस्ति अहम् इति यत् अस्ति तत् अहम् आत्मा अस्ति वा या अहम् इति यत् वयम् अहङ्कारति ईगो वदामः सामान्यतया इदानीं यत् वयम् अहं यत् अस्ति तत् अहं आत्मा वयं जानीमः इति चैतन्यप्रतिबिम्ब भवति सगुणब्रह्म यत् अस्ति तस्य प्रतिबिम्ब इति अंशे यत् शारीरिक अंशे तस्य प्रतिबिम्बं भवति इति यूनिट् अणुचैतन्यम् अयं वदामः जीवात्मा अणुचैतन्यम् एकमेव तत् एव अहम् अस्ति किन्तु तत् अहं वयं शरीरे वा मनसि अध्यासं आ, कृत्वा वयं कर्म कुर्मः वा इति तो अहं पठामि अहं वदामि अहं कार्यं करोमि इति भावना आगच्छति यदि इति अस्ति तदानीं अहम् इति यत् भावः अस्ति तत् अहम यमा शरीर वनस वुद्ध्या अभ्यास कर्म तत कौती तत् फलमी कार्यफल व्यवहारिकूपेणी कि आत्मा कवल तथ, साक्षी एव तत Uh, आत्मनि किमपि uh, तस्य प्रभावन न भवति आत्मा केवलम् अस्ति यथा गतसप्ताहे भवती उक्तवती uh, दीपम् उपरि अस्ति तस्य प्र, प्रकाश सर्वे uh, सर्वेषाम् उपरि एकस्मा uh, एकसमान एव भवति uh, प्रकाशः वर्तते तत्र ता किन्तु uh, कुत्र <gutra>, uh, प्रकाश अधिकमस्ति कुत्र uh, न्यूनमस्ति इति अन्धकार यदा कोऽपि अभिनेता आगच्छति तत् तत् दृश् दृश्यते इति तथैव आत्मा अपि अहम् अस्ति इति निर्गुणनिराकार एव तिष्ठति साक्षीरूपेण यथा इदानीं वयं पूर्वं परिच्छेदे उदाहरणं दृष्टवन्तः इति व्यक्ति अस्ति सह अभिनेता रूपेन शाहजान, शाहजहान् तस्य तस्य नाटकम् इति अभिनेता भवति किन्तु शाहजहान् किमपि यत् मुम्तास् मुताज़् सः तस्य प्रीतिः अस्ति वा तस्य सः यदि तस्य पुत्र कारगारे प्रेषितवान् तस्य शाहजहानस्य यत् अपि किं भवति तस्य दुःख सुखमस्ति राजा दुःखः अस्ति वा कारिगारस्य दुःख राजा सुखः वा कारिगारस्य दुःखम् अस्ति राम प्रति किमपि तस्य प्रभावः न भवति रामः तथैव तिष्ठति यथा सः आसीत् शाहजहान् यदी नाटक समाप्त तस्य अभिनेता तस्य तस्य सह गत्वा तस्ह ग तथैव यत् आत्मा अस्ति अहं यत् अस्ति तत् अपि केवलं साक्षी भवति किन्तु सर्वेषां यत् कर्म शारीरिक रू, आ, रूपे वा मानसिक मानसिकरूपे यत् वयम् अनुभव अनुभवामः अन, अनुभवा इन्द्रियाणि इन्द्रियाणि इं, इन्द्रियैः सह मनसा वचसा इति यत् कुर् किमपि वयं कुर्मः तत् केवलम् इति उपाधिरूपेण आगच्छति न तु अहं यत् तत्त्व अस्ति तत् न प्रभावित भवति अनेन इति अस्ति साधु भगिनि आम् समीचीनं भगिनि सम्यक् इत्युक्ते अस्मिन् परिच्छेदे अत्र अणुच अणुचैतन्यस्य स्वभावः किम् अस्ति इति अत्र उक्तमस्ति तर्हि तत्र मनुष्यशरीरे जीवात्मा वर्तते जीवात्मा मनसः मनसः भिन्नः अस्ति इति वयं जानीमः अनुमनसः भिन्नः वर्तते जीवात्मा अनुमनसः त्रयः अंशाः सन्ति इति अपि वयं जानीमः तस्य सूक्ष्मः अंशः वर्तते महत्तत्त्वम् अहमस्मि इति भावः तर्हि अत्र अहं तत्त्वं तु अहं कर्ता इति भावः चित्तं तु तत्र यत्किमपि वयं कुर्मः तस्य आकारम् आकारं तत्र अहं तत्त्वस्य आदेशानुगुणं चित्तं चित्तम् इति वस्तुतः तत्र चित्रपटलम् अस्ति यत्र तत्र तत् यस्य विषये वयं चिन्तनं कुर्मः तस्य आकारं चित्तं गृह्णाति तर्हि मनुष्येषु तत्र लघु अहं भावः अपि वर्तते इति कृत्वा मनुष्यः किं चिन्तयति इति चेत् अहमेव कर्ता अहमेव भोक्ता इति सः चिन्तयति तर्हि एतादृशभावः वस्तुतः एतादृशभावः मनसा मनसः कारणेन एव भवति तर्हि जीवात्मा तु तत्र जीवात्मा तु जीवात्मनि तु अहं कर्ता अहं भोक्ता इति भावः नास्ति मनसि एव एतादृशभावः अस्ति जीवात्मा किं करोति इति चेत् जीवात्मा केवलं साक्षीसत्ता अस्ति यत्किमपि मनसा द्वारा वयं कुर्मः तस्य केवलं साक्षीसत्ता अस्ति जीवात्मा यदा मनुष्यस्य पुनर्जन्म भवति तदानीं मनुष्येषु एकं तु मनः वर्तते अन्यत्तु अन्य अन्यः अन्यः तत्र एकः एकवस्तु तु मनः अन्यवस्तु अस्ति जीवात्मा तर्हि यदा अस्माकं मरणं जायते तदानीं यदा अस्माभिः पूर्वं चर्चितम् अस्माकं यदा मरणं जायते तदानीम् अस्माकं संस्कारः भवति संस्कारः भवति इत्युक्ते यत्किमपि वयं कार्यं कुर्मः तस्य तु संस्कारः जायते तस्य प्रतिफलनं जायते तर्हि यदा अस्माकं मरणं जायते तदानीं ये संस्काराः सन्ति यत् पूर्वं कार्यं कृतं तस्य प्रतिफलनं यदस्ति एतावता तस्य कर्मफलं एतावता न अनुभूतं तत्तु संस्काररूपेण भवति तादृशसंस्कारः तु मनसि एव भवति यदा अस्माकं मरणं भवति तदानीं मनसः मरणं नास्ति जीवात्मनः मरणं नास्ति केवलं शरीरस्य मरणं यदा मरणं भवति तदानीं जीवात्मा अपि च मनः शरीरात् गच्छति तर्हि मनसि संस्काराः भवन्ति एतादृशसंस्कारः किमर्थं भवति इति चेत् अत्र तत्र मनसः द्वारा एव वयं कार्यं मनसः द्वारा कार्यं कुर्मः कार्याणि कुर्मः तदानीं पृथक् अस्तित्वम् अस्माकं पृथक् महा महा पृथक् इति भावः अस्माकम् अस्ति इति कृत्वा तत्र यदा जन्म भवति तदानीं मनसि ये सन्ति एतावता एता एतेषां कर्मफलानि अस्माभिः न अनुभोक्तानि इति कृत्वा जीवात्मा अपि च मनः शरीरं जीवात्मा मनः च शरीरं त्यजति त्यक्त्वा पुनः नूतनशरीरस्य प्रतीक्षां कुर्वन्ति प्रतीक्षां कुर्वन्ति तर्हि वस्तुतः जीवात्मा तु किमपि न करोति कर्ता अपि नास्ति भोक्ता नास्ति केवलं साक्षीसत्ता अस्ति अतः तद् जीवात्मा तु अस्माकं अस्माकं यानि कर्माणि यानि कर्माणि अस्माभिः कृतानि तेषां सर्वेषां कर्मफलानि जीवात्मा तु न अनुभवति तर्हि किम् अनुभवति इति चेत् मनः एव अनुभवति इति कृत्वा संस्काराः सन्ति इति कृत्वा अस्माकं पुनर्जन्म भवति अस्मिन् जगति तर्हि जीवात्मा अपि मनः सर्वत्र युगलमेव गच्छति युगलमेव सर्वत्र गच्छति अतः अत्र अत्र यदा वयं पश्यामः पुनः जन्म भवति पुनः मनः अस्ति मनसि तत्र भावः अपि अस्ति यावत्पर्यन्तमहमस्मि इति भावः अस्ति यावत्पर्यन्तम् अहं पृथक् अस्मि इति भावः अस्ति यावत्पर्यन्तम् अहं कर्ता मनः एव कर्ता मनः एव भोक्ता इति अस्ति तावत्पर्यन्तं जीवात्मा मनसा सह सम्बद्धः भवति यद्यपि जीवात्मा केवलं साक्षिसत्ता एव अस्ति तेषां कर्मणां साक्षिसत्ता एव अस्ति जीवात्मा तदानिम् अपि तथापि जीवात्मा मनसा सह बद्धः भवति यतोहि अस्माकं पृथक् अस्तित्वम् इति भावः अस्माकं वर्तते तावत्पर्यन्तं जीवात्मा अपि च मनः द्वयमपि बद्धमेव भवति कोऽपि प्रश्नः अस्ति वा अवगतं वा यदुक्तम् ओके आं भगिनि यत् वयं वेरि एतत् यदि इदानीमपि सम्बन्ध यत् यद् पूरं पूर्वं पठितं तदेव अत्रापि अस्ति साधु किन्तु इति आत्मा जीवात्मा न यत् पूर्वं पठितम् इत्युक्ते बहूनाम् अंशानां पुनराव आवर्तिः अस्ति तत् नास्ति इति न ना, परन्तु नूतनांशाः अपि सन्ति इत्युक्ते पुनरावर्तिः पुनरावर्तिः इति नास्ति नूतन अंशाः अपि अत्र सन्ति खलु तत्र जीवात्मा साक्षीसत्ता वर्तते इति एतादृशचिन्तन इत्युक्ते यदा दर्शनशास्त्रमस्ति यः विषयाः ये विषयाः पूर्वं पाठिताः तत्र एव स्थापयित्वा पुनः नूतनविषयः चर्च्यते चेत् तदानीं पूर्वं किमुक्तम् इति अस्माकं स्मरने न भवति खलु इति कृत्वा पुनरावृत्तिं कृत्वा पुनः नूतनविषयाः अपि उच्यते चेत् सम्यक्तया भवति खलु ज्ञातविषयः यः अस्ति ज्ञातविषयाः ये तान् उक्त्वा नूतनविषयाः विषयाणां परिचयः दीयते चेत् तदानीं स्पष्टतया बोधः भवति इति कृत्वा इति कृत्वा पूर्वं चर्चितानां विषयानां परांशः अत्र उक्तः अस्ति तत्तु सत्यं भगिनी इति मनसि अपि स्पष्टता भवति मनसि स्पष्टता भवति स्पष्टतया यत् सर्वम् अवगमने आयाति अनन्तरं पुनः यदा अस्य विषये वद वक्तव्यं तदानीं क्लेशः न भवति अपि मननमपि भवति अस्माकं मननं भवति सत्यं मननं मननम् इति ध्यासनं सर्वं भवति अस्तु पुनः पुनर्ध्या कृत्वा इति अनुभवामः अत्र गाढतया चिन्तयितुं शक्नुमः अस्तु तर्हि अत्र स्थगनं कुर्मः कोपि संशयः अस्ति वा यतोहि अग्रिमपरिचयः दीर्घः अस्ति अग्रिमसप्ताहे स्वीकुर्मः अस्तु अत्र धन्यवादः नास्ति चेत् स्थापयामः धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः